ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 31 भार्गवचरितं सगर उवाच ब्रह्मपुत्रमहाभागवद भार्गवचेष्टितं यच्चकारमहावीर्यो राज्ञक्रुद्धो हि कर्मणा वसिष्ठ उवाच गदे तस्मिन् महाभागे भृगो पितृपरायणः रामः प्रोवाच संक्रुद्धो मुञ्च्वासान्मुहुर्मुहुः परशुराम उवाच अहोपश्यदमूढत्वं राज्ञो ह्युत्पथगामिनः कार्तवीर्यस्य यो विद्वांश्चक्रे ब्रह्मवधोद्यमम् दैवं हि बलवन्मन्ये यत्प्रभावाच्छरीरिणः शुभं वाप्यशुभं सर्वे प्रकुर्वन्ति विमोहिताः शृण्वन्धुर्षयत्सर्वे प्रतिज्ञा क्रियते मया कार्तवीर्यं निहत्या जौ प्रसाधये यदि राजा सुरैः सर्वैरिन्द्रादैर्दानवैस्तथा रिक्षिष्यते तथाप्येन संहरिष्यामि नान्यथा एवमुक्तं समाकर्ण्य रामेण समूहात्मना जमदग्निरुवाचेदं पुत्रं साहसभाषिणं जमदग्निरुवाच शृणुराम प्रवक्ष्यामि सदां धर्मं सनातनं यच्छ्रुत्वा मानवाः सर्वे जायन्ते धर्मकारिणः साधवो ये महाभागा संसारान् मोक्षकाङ्क्षिणः न कस्मैचित् प्रकुप्यन्ति निन्दिता ताडिता अपि क्षमाधनामहाभागा येच च दान्तास्तपस्विनः तेषां चैव लोका सततं साधुकारिणां यस्तु दुष्टैस्तु दण्डाद्यैर्वचसापि च ताडितः न चक्षोभमवाप्नोति स साधुः ताडये ताडयन्तं यो न पापभाक साधु सः पापपाक् साधवो ब्राह्मणा नर नादवधे तादपादकं सुमहद्भवेद् तस्मान्निवारये त्वाद्यक्षमां कुरु तपश्चर वसिष्ठ उवाच एवं पित्रा समाधिष्टं विज्ञाय नृपनन्दन रामप्रोवाच पितरं क्षमाशीलमरिन्दमं परशुराम उवाच शृणुताद महाप्राज्ञ विदितिं मम साम्प्रतं भवदाशम शम उद्दिष्ट साधूनां सुमहात्मनाम् मशमस्साधु दीनेषु गुरुश्वीश्वरभावनैः कर्तव्यो दुष्टचेष्टेषु न देह्याज्ञां माननीयाद्य साधये वैरमात्मनः जमदग्निरुवाजा शृणुराममहाभागवचो मम समाहितः करिष्यसि भावि तथा नैवान्यथा भवेद् इदो व्रजत्वं ब्रह्माणं भृच्छतादहिताहितं स यद्वदिष्यति कर्तानात्र संशयः वसिष्ठ उवाच एवमुक्तस्य पितरं नमस्कृत्य महामतिः जगामब्रह्मणो लोकमगम्यं प्राकृतैर्जनैः ददर्श ब्रह्मणो लोकं शातकैम्भविनिर्मितं स्वर्णप्रकारसंयुक्तं मणिस्तम्भैर्विमोषितम् तत्रा पश्यत्समासीनं ब्रह्माणममितौजसं रत्नसिंहासने रम्ये रत्नभूषणभूषितं सिद्धेन्द्रैश्च मुनीन्द्रैश्च वेष्टितं ध्यानतत्परैः विद्याधरीणां नृत्यं च पश्यन्तं सस्मितं मुदा तपसा फलदातारं कर्तारं जगदां विभुं परिपूर्णतमं ब्रह्मध्यायतं यदमानसं गुह्ययोगं प्रवोचन्दं भक्तवृन्देषु सन्ततं दृष्ट्वा तमव्ययं भग्र्या प्रणनाम भृगुद्वह स दृष्ट्वा विनतं राममाशीर्भिरभिनन्द्य च पप्रकुशलं वत्स कथमागमनं कृताः सम्पृष्टो विधिना रामः प्रोवाचाखिलमादितः वृत्तान्तं कार्तवीर्यस्य पितु स्वस्य महात्मनः सश्रुत्वा सकलं ब्रह्मा विज्ञातार्थोऽपिमानद उवाच रामं धर्मिष्टं परिणाम सुखावहम् प्रतिज्ञा दुर्लभा भवन् कृतवान्नषा सृष्टिरेषा भगवतः सम्भवेत्कृपया बटो जगत्सृष्टमयातादसङ्क्लेशेन तदाज्ञया तन्नाशकारिणी चैव प्रतिज्ञा भवता कृता त्रिसप्तकृत्वो निर्भुवां कर्तुमिच्छसि मेदिनीं एकस्य राज्ञो दोषेण पिदुःपरिभवेन च ब्रह्मक्षत्रियवित्सूद्रयसृष्टिरेषा सनातनी आविर्भूदातिरोभूता हरेरेव पुनः पुनः अव्यर्था त्वत्प्रतिज्ञातु भवित्री प्राक्तनेन यद्वायासेनते यद्वा यासेन ते शिवलोकम् प्रयाहित्वं त्वं शिवस्याज्ञामवाप्नुहि पृथिव्यां बहवो भूपाः सन्ति शङ्कर किङ्कराः विनैवज्ञां महेशस्य को वा बिभ्रद कवचान्यङ्गे शक्रीश्चापि दुरास्तदाः उपायं कुरु यत्नेन जय उपायेदु शुभावकम् सर्वे दुःसमारब्धे सर्वे सिद्ध्यन्त्युपक्रमाः श्रीकृष्णमन्त्रं कवचं गृह्णवत्स गुरोर्हराद दुर्लङ्घ्यं वैष्णवं तेजशिवशक्तिर्विजेष्यति त्रैलोक्यविजयं नाम परमाद्भुतम् य कथम च विज्ञाप्य शरम दुर्लभम प्रसन्न स दिव्य कृपोदीन वसल दिव्य पाशुपी दास्त न संशय्रह्माडे महापुराणे वायु प्रोक् मध्यभागे तृतीय उभोद्धातपादे भार्गवचरिते एकत्रिंशत्तमोऽध्यायः ओम्